श्रीदुर्गायै नमः द्वितीयोऽध्यायः विनियोगः मद्धं चरित्रस्य विष्णुः ऋषिः महालक्ष्मीर्देवता उष्णिच्छन्दः शाकम्भरीशक्तिः दुर्गाबीजं वायुस्तत्वं यजुर्वेदस्वरूपम् श्रीमहालक्ष्मीप्रत्यर्थं मध्यं चरित्रजपे विनियोगः ध्यानम् ॐ अक्षप्रशुं गदेशकुलिशं पद्मं धनुष्कुण्डिकां दण्डं सप्तमसिं च चर्म च चर्मजलजं घण्टासुराभाजनं शूलं पाशुदर्शने च दधतिम् हस्तैः प्रसन्नाम् सेवेशैरिभमर्जनिमि महालक्ष्मीं सरोजस्थिताम् ॐ भीं ऋषिरुवाच देवासुरसमुद्युद्धं पूर्णमब्दशतं पुरा महिषे सुराणाम् अधिपे देवानां च पुरन्दरे तत्रासुरैर्महावीर्यै देवसैन्यम् पराजितं जित्वा च शकलान् देवान् इन्द्रो भुण्महिषासुरः ततः पराजिता देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गतास्तत्र तयोस्तद्वन् महिषासुरचेष्टितम् त्रिदशा कथयामासुर देवाभिभवविस्तरं सुरेन्द्राग्ननीलेन्दूनां यमस्य वरुणस्य च चा। अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति स्वर्गा निराकृता सर्वे तेन देवगणा भुवि विचरन्ति यथा मरुतां महिषेण दुरात्मनां तद्वदकथितं सर्वम् अमरारिवितेष्ठितम् शरणं व प्रपन्नास्मो वदस्तस्य विचिन्त्यताम् इत्थं निशम्य देवानां वचांसि मधुसूदलः चकारकोपं शम्भुश्च भृगुटिकुटिलानदौ ततो चिकोपपूर्णस्य चकृणो वदनात्ततः निश्चक्रां महत्तेजो ब्रह्मण शङ्करस्य च अन्येषां चैव देवानां सक्रादीनां शरीरतः निर्गतं सोमहत्तेज तच्चैक्यं समगच्छत अतिवितेजसः कूटम् ज्वलन्तम् इव पर्वतं दादिशु श्रे सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलं तत्र तत्तेज सर्वदेव शरीरजम् एकस्थं तद्भुन्नारी व्याप्तलोकत्रयन्ति सा यद्भुत्साम्भवं तेज तेनाचायत तन्मुखम् याम्येन चाभवन् केशा बाहो विष्णुतेजसा सौम्येन स्तनुयोर्युग्मम् मध्यं चैन्द्रेण चाभव वारुणेन च जङ्कूरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदनुगुल्योऽर्कतेजसः नसूनां च कराङ्गुल्य कौबेरेण च नाशिका तस्यास्तु दन्ता सम्भूता प्रजापत्येन तेजसा नयनत्रित्रयं यज्ञे तथा पावकतेजसा ध्रुवौ च सन्ध्ययोस्तेज श्रवणावलयस्य च अन्येषां चैव देवानां सम्भवस्तेजसा शिवा ततः समस्तदेवानां तेजोराशिसमुद्भवां ताम विलोक्य मुदं प्रापुरमरामहि सार्जिताः शूलं शूलाद्विनिष्कृष्य ददौ तस्यैपि ना चक्रं च दत्तवान् कृष्ण समुत्पाद्य स्वचक्रतः शङ्खं च वरुणं शक्तिं ददौ तस्यैहुताशरः मारुतो दत्तवां शापं बाणपूर्णे तथेषुधि वज्रमिन्द्र समुत्पाद्य कुलसादमम राजिताधिपः वज्रमिन्द्र समुत्पाद्य ददौ तस्यै महास्राक्षो घण्टामैरावधाद्गजात् कालदण्डाद्यमोदण्डं पासं चाम्बुपतिर्ददौ प्रजापतेश्चाक्षमादां ददौ ब्रह्माकमण्डलुं समस्तरो मकुपेशो निजरस्मिन् दिवाकरः दत्तवान् खड्गं तस्याश्चर्म निर्मलम् क्षीरोदस्यामलं हारम् अजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूषान् सर्वबाहुषु नृपुरो विमलौ तद्वद्ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्पादि समस्ता स्वाङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुं करूपाडी तथा भेद्यं च दंशनम् अम्लान् पङ्कजां मालां तिरस्यूरसि चापराम् अददज्जलं जलधीस्तस्यै पङ्कजं चातिशोभनं हिमवान्वाहनं रत्नानि विवृशानि च ददावशून्यं सुरया पानपात्रं धनाधिपः शेषश्च सर्वनागेशो महां नागहारं ददौ तस्यै धत्ते यपृथिवीमिमाम् अन्यैरपि सुरैर्देवी भूषणैरायुधस्तथा सम्मानिताननादोच्चै काट्टः सम्मुहुर्मुहुः तस्यानादेन धूरेण कृष्णमापूरितं नभ अमायतातिमहतां प्रतिशब्दो महानभूत् चुक्षुः सकलालोका समुद्राश्च च कम्पिरे च दालवसुधाचेलु सकलाश्च महीधराः जयति देवाश्च मुदा तामुचुसिंहवाहिनीम् तुष्टवर्मुनियश्चैनाम् भक्तिनम्रात्मूर्तयः दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यमम रारयः सन्नद्धाखिलसैन्यास्ते तमुस्तूरुजायुधा आ किमेतदिति क्रोधा आपास्य महिषाचिरः लभ्यधावत तम् शब्दम् अशेषैरसुरैवितः सददर्श ततो देवीं व्याप्तलोकत्रयात्विताम् पादाक्रान्तानतभुवम् किरीटोल्लिखिताम्बरां क्षोभिताशेषपाताराम् धनुर्जाली स्वनिनताम् ऋतो भुजसहस्रेण समन्ताद्याप्यशंस्थिताम् ततः प्रवृत्ते युद्धम् तया देव्यासुरद्विषां सस्त्राश्री बहुधा मुक्तै आदिपीतदिगन्तरम् नैषासुरसेनाडी चक्षुराक्षां महासुरः युधे चामरश्चान्द्यै चतुरङ्गबलान्वितः रतायुत सैदव्याख्यो महासुर अयु्यतायुताह महा हनु पंचाश्द्भिस्तु अशिलोमा महाशुर अयुता शतषेदास्कलोयुविधेरले गजबाजी सहस्रौ अनेक परिवार ऋतोरथा कूट्या च युद्धे तस्मिन्न युध्यत निडालाख्यो युतानां च पञ्चाशद्भिरथायुतै युधे संयुगे तत्र रतानां परवारितः अन्ये च तत्रायुतसो दतनाग हैर्विताः युधो संयुगे देव्या स तत्र महासुराः कोटिकोटिसहस्रेषु रसानां दन्ति तथा हयानां च वृतो युद्धे तत्रान्भुन्महिषासुरः तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुशलैस्तथा विविधुसंयुगे देव्या खड्गैपरशुपट्टिषै केचिच्च चेक्षुपुः शक्ति केचित्पाशाश्च सा परे देविं खड्गप्रहारैस्तु ते तां हन्तुं तापि सापि देवी ततस्तादि शस्त्रान्यस्त्राणि चण्डिका लील्यैव प्रच्छेद्य निजशस्त्रासर्षिभिः अनाजास्तानना देवी तूयमानासुरर्षिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो तेद्यावाहनकेसरी तथान्द्रासुरसैन्येषु वनेष्वेव सुदाचलः निःश्वासान्मुचेयाश्च युध्यमाना रणिम्बिका त एव सद्यं सम्भूता गणाशतसहस्रशः युधुस्ते परशुरभिम्भी बिन्द्यपालासि नाशयन्त्यशुरगणान् देवी शक्त्युपभृश्यः अवादयन्त मृदंगास्य गणाशङ्खास्तथापरे मृदङ्गाश्च तथैवण्ड्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवेष्टिभे खड्गादिभे सदसो निर्घाणमहाशुरान् पातयामास चैवाण्ड्यान् घण्टास्वनमिमोचितान् असुरान् भुविपाशेन दद्वाचान्यान्कर्षय केचिद्विधाकृता तीक्ष्णैः खड्गपातैः सथा परे निपोचितानिपातेन गदयाभिषेयते वेमुश्च केचिद्रुतिरं केचिन्निपतिता भूमौ छिन्नाशूलेन वक्षसे निरन्तराघरौ सरौघेण पिता केचिद् द्रडाजिके स्वेशयानुकारिण प्राणान् मुमुचुस्त्रीदशार्चना केषाश्चिद्बाहवच्छिन्ना छिन्नग्रीवा तथा परे श्रीरांसिपेतुरन्येषाम् अन्ये मध्ये विदारिता विच्छिन्नजङ्घं जङ्घास्त्वपरे पेरुरुर्व्यां महासुरा देकबाहोक्षिचरणा केचिद्देव्या दिहाकृता छिन्नेऽपि चान्ये शिरसि पतिता पुनरुत्थिताः कबन्धायुसुर्देव्या गृहीतपरमायुधा ननुतुश्चा परे तत्र युद्धे तुर्यलयाश्रिताः कबन्धाः छिन्नशिरस खड्जत्रिष्टिपाडयः तिष्ठतिष्ठे तेस्ट त्रिपाशुभाषन्तो देवी मन्ये महासुराः पातुतैरसनागाश्वसुरैश्च वशुंधरा अगम्याशाभुवत्तत्र यत्रापुस्वहारणां सोणितौघामहानद्य तद्यस्तत्र प्रशुश्रूः मध्ये चासुरसैन्यस्य वारणासुरवाचिनाम् फलेन तन्महासैन्यम् असुराणां तफाम्बिका निन्दे चयम् यथा बन्धे त्रेण दारो महाचयं स च महानादम् उस्त्रिन्थन्तु तेसरः शरीरेभ्यो मरारीणाम् अशुनिर्विचिन्तति देव्या गणेशिनैस्तत्र कृतं युद्धं महासुरै यथैसां चतुर्सेवा पुष्पवेष्टिमुचोदेवी ॐ श्रीमार्कण्डीपुराणे तावणके मन्वन्त्र्यै देवी महात्म्यै महिषासुरसैन्यवधूनाम ॐ श्रीदुर्गायै नमः